मुद्गलपुराणम् खण्डं तु एकदन्तचरितम् अध्यायं फिफ्टि त्रि मदासुरःपराजयम् श्रीगणेशाय नमः कृत्समद उवाच एवं दत्त्वा वरं देवान् मुनीन् सर्वान् गजाननः अन्तर्धाय स्वमात्मानमेकदन्तो ययौ पुरम् कदा कदाचिद् दैत्येन्द्रं प्रययौ नारदो मुनिः मदासुरमहाक्रूरं तेनायं मानितोऽभवद उवाचदं महादैत्यं नारदप्रहसन् मुनिः शृणु दैत्यपदे वाक्यं मदीयं सर्वसौख्यदं वनेषु देवविप्रैश्च तपस्तप्तं सुदारुणं गणेशस्य मुदे भूपशतवर्षाणि भूरि वै ततस्तेषां प्रसन्नो भू गणेशो ब्रह्मनायकः वरदो ह्यभवत्तत्र भक्त्या सन्तोषितः स्वयं तैस्ते वधार्थमद्यन्तं याचितः स तथा वदद त्वां भनिष्यति नारदस्य वच श्रुत्वा मदासुरो मुनिं तत्र विसृज्याभूत् सुदुःखितः ब्रह्माण्डवासिनो ये वैतेभ्यो मृत्युर्नमे भवेद अयं क एकदन्तश्च तं हन्मि क्रोधसंयुतः मया विमोचिता देवा दययाथ कृदं महद शत्रुभावयुधं कार्यं तस्मात् तान् हन्मि निश्चितं दैत्येन्द्रायि कथितं सर्वं सत्यं जातं न संशयः देवेन्द्राशत्रवः सर्वे सुराणां वेदवाक्यतः एवं विचार्य दैत्यश्च समाहूयमः महासुरान् सन्नद्धो देवनाशार्थं ससैन्यो निःसृतो बहिः तदोकस्मान् महादेव एकदन्धप्रतापवान् बभूव प्रकटस्तेषां समीपे भयदायकः मूषकाजूढमुग्रन्तं नरनागस्वरूपिणं शस्त्रपाणिं च दुर्बाहुं दृष्ट्वा दैत्या सुविस्मिताः ततः कोलाहलं तत्र चक्रुः सर्वे समन्ततः कोऽयं समागतो दैत्या महत्पश्यदः कौतुकं दैत्या सर्वे चदं दृष्ट्वा भयभीदा विरे स्थित्वा तत्रैव दैत्येशा च दूतं ते सं जगुर्वचः गच्छ दूतसमीपं त्वं पुरुषस्य त्वरान्वितः वृत्तान्तमखिलं ज्ञात्वा याहि त्वं सामसंयुधः तदस्तमेकदन्तं सययौ दूधः उवाच प्राञ्जलिर्भूत्वा गणेशं देवनायकं दूत उवाच स्वामिन्मदा सुरस्याकं दूतस्ते न प्रचोदितः सदु वै त्वां दृष्ट्वा विस्मितोऽभवद भवान् कश्चबुतो याद किं कार्यं नाम दे प्रभो कस्य वा वद सर्वज्ञ संशयस्यापनुतये यदि पृष्टस्य दूदेन एकदन्तस्तमादराद जगाद हास्यसंयोक्तो दैत्यदूतम् विचक्षणम् एकदन्त उवाच अहम् स्वानन्दवासी च धुना मदासुरं निहन्तुं वै देवानां सुखवृद्धये एकदन्द इति ख्यातः सदा ब्रह्मसुखात्मकः दूतवर्यवदाशुत्वं मोहितं तं मदासुरम् इच्छसि त्वं जीवितुं चेत्तदा मां शरणं व्रज देवानां द्वेषमुत्सृज्य वस नगरे स्वगे देवाहविर्भुजसन्धुदैत्या पादालभोगिनः विश्वं सुखस्तं भवतु स्वस्वधर्मपरायणं ये तदर्थमहं वद सर्वं सुविस्तरं मदासुरमहाक्रूरं नो चेत् धन्मिक्षणेन दम् एकदन्तवच श्रुत्वा दैत्यदूतः प्रणम्यतं ययौ मदासुरं तत्र वृत्तान्तं चाब्रवीत्पुरः दूतस्य वचनं श्रुत्वा मूर्च्छितो दैत्यपुङ्गवः दैते यै सावधानश्च कृतसोऽपि शुश्रोचः उपाच उपच दैत्यन्देन समीदम वाक्यम तदवत्स्य मम शुर मद नाशास्त्रास्त्राईस्त हनिष्या न संशय कथम खा। काल से मे मृत्युर्भव्य महासुराः यवमुक्त्वा ययौ पापी मतः सर्वसमन्विदः एकदन्तं समुद्दिश्य शस्त्रमुग्रं मुमोचः अनिवार्यमोकं च शस्त्रं दृष्ट्वा गजाननः परशुं तोलयित्वा समुमोच यमसन्निभं परशुं दैत्यपादृष्ट्वा तेजसा समृद्धं परं भयभीदा समन्तात्ते परायन्द दिशो परशुर्दैत्यराजास्त्रं स्वच्चित्वा स्वेन तेजसा ततो दैत्यांश्च सर्वत्र चिच्छेद यमसन्निभः हता परसुना दैत्या सर्वे प्रह्लाद तक्षणाद त्रिपुरादय एवं ते दृष्ट्वा वै दुद्रुवुर्भयाद तदो मदासुरक्रुद्धो जग्राहास्त्रमनुतमं संहाराख्यमोखं वै युयोज धनुषि स्वयं तावत्परश्युना विद्धो हृदये दैत्यपुङ्गवः पपादश धरापृष्टो वादासद इव द्रुमः ततस्तत्र त्वभूद प्रहरार्धेन दैत्ये श सावधानो बभूवः अपश्यत् स महास्त्रं तत्परशुं यमसन्निभं समीपे दैत्यराजस्तु विस्मितो हृदये भवत् अयं परशु राजक्यं तेजः मया दृश्यते न च संसृष्टो ह्यत त्विदम् दोहस्तेन दैत्येन गृहीतः परशुर्महान् तथापि हस्तमभ्ये सौ कवचून्यस्तदाभवद मदस्सहृदिविज्ञायशस्त्रं ब्रह्ममयं परम् ज्ञात्वा वयवसंहीनम् विचारमकरोत् तदा अहोक एकदन्तोऽयं ब्रह्मकारो न संशयः न ब्रह्माण्डमयाकारो भवेत्तद्वर्जितो न च अधो नेन पूर्णं न भविष्यति किञ्चन मारयिष्यति मां न्यूनं नात्र कार्याविचारणा एवमुक्त्वा कृति क्षुब्धो दैत्येशश्च मदासुरः दैवयोगेन सस्मारवेदवाक्यं सुखप्रदम् एकदन्तार्धजं ज्ञानम् विचार्यैव च विघ्नपं बुबोधहृदि दैत्येन्द्रो ब्रह्मरूपः प्रधारकं मायात्मकश्चैकशब्दस्तत्र सर्वं समुद्भवद भ्रान्तिदं मोहदं पूर्णं नानाखेलमयं जगद दन्तसत्तात्मकस्तत्र मायाचालकसंज्ञकः बिम्बेन मोहयुक्तः सस्वयं स्वानन्दगो भवद माया भ्रामी प्रोक्ता सत्ता चालक उच्य गणेशोंयेकदंध प्रकथ्य महदभाग्यमदीय तेना दृष्टिगोचरम आयासेन विना प्राप्तस्त शरण तदह भक्त संयोगिनो नि भजं दे सुख मुख्यता ब्रह्मभूद महाभागा शरणं तदह एवं भक्त्या मदो दैत्यपर्युक्तो महामदे त्यक्त्वा त्यक्त्वाभिमानजन्तोषं तमेव शरणं ययौ ॐ तत्सदि श्रीमदान्ध्ये पुराणोपनिषद्दि मौद्गले महापुराणे द्वितीये खण्डे एकदन्तजरिदे मदासुर पराजयो नाम त्रिपञ्चाशत्तमोऽध्यायः ओम्